नमो नमः नमस्कारः सर्वेषां स्वागतम् अस्माकं वर्गे ध्वनिः श्रूयते वा विना भगिनि प्रार्थनया आरम्भं करोति वा तरस्वती नमस्तुभ्यम् वरदे कामरूपिणी विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रान्विता या वीणा वरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माश्चुतशङ्करप्रभृतिभिः देवैः सदा पूजिता सा माम् पातु सरस्वती निश्यजाध्यापः नमो नमः धन्यवादाः धन्यवादाः पुनः एकवारं सर्वेषां स्वागतम् नमो नमः नमो नमः भगिनी स्वागतम् नमो नमः नमो नमः राधा भगिनी नमो नमः अद्यदिने आरम्भे वयं किञ्चित् व्याकरणदृष्ट्या पुनरावर्तनं कुर्मः इत्युक्ते तत्र वयं सर्वे जानीमः इति सहातौटे एतत् पुल्लिङ्गिशब्दस्य प्रथमाविभक्त्यन्तरूपाणि सहातौटे तथैव युष्मशब्द भवति चेत् तत्र कथमस्ति प्रथमाविभक्ति त्वं युवां यूयम् तथैव अस्मत् शब्दस्य कृते कथं भवति अहम् आवां वयम् तत् एकवारं तस्य पुनरावर्तनं कुर्मः तथैव वाक्यरचनायाः कृते किम् यदा अहं वद् धातुं स्वीकरोमि उदाहरणार्थं लट्लकार वर्तमानकालरूपाणि तत्र किं भवति प्रथमपुरुषः मध्यमपुरुषः द्वितीयपुरुषः प्रथमपुरुषस्य अपि एकवचनान्तरूपं द्विवचनान्तरूपं बहुवचनान्तरूपं तथैव मध्यमपुरुषस्य अपि भवति उत्तमपुरुषस्य अपि भवति तदा वयं कथं लिखामः वदति वदतः वदन्ति वदसि वदथ वदथ वदामि वदावः वदामः ते तत् सर्व एकवारं तत् स्टार्ट् मध्ये दृष्ट्वा एका तालिका अस्ति तत्र दृष्ट्वा एकवारम् अभ्यासं कुर्मः अनन्तरं पुस्तकं प्रति गच्छामः अत्र अस्ति दृश्यते स्क्रीन् दृश्यते सर्वेषां एकवारं पठनं कुर्मः भारतमहोदय भवान पठति वा आं भगिनि प्रथमा एकवचनं सः द्विवचनं तौ बहुवचनम् प्रथमा अस्मद् एकवचनम् अहं द्विवचनम् आवां बहुवचनं वयं प्रथमा युष्मद् एकवचनं त्वं द्विवचनं युवां बहुवचनं युयं तत् किञ्चित् कालानन्तरं पश्यामः तत्र कर्तरिलट्लकां प्रति किञ्चित् कालानन्तरं कुर्मः हा अधुना सर्वे शृण्वन्तु किञ्चित् अत्र सः तौ ते इत्युक्ते बालकः सह, बालकः सः बालकः तौ बालकौ बाल ते बालकाः एवस् सालको ते बाल तथा अस्म शब्द से कथम वादा कॉपी तक बालक अस् सदी अहम बांकवचनेदती अहम बाश्य बाक बालकद्वयं तदा ते कथं वदन् वदति बाल, अनन्तरं तत्र बालकाः सन्ति बालकाः सन्ति ते कथं वदति वयं बालकाः वयं बालकाः तथैव पश्यन्तु अत्र अन्य कोऽपि वदति अनकोपदी तक अस्कोपय कदक बहव बा अ कथम वजती यूय बात अस्र्त शौट अस्म शब्द से अहम् आवां वयं युष्मत् शब्दस्य त्वं युवां युयम् सर्वाणि प्रथमाविभक्त्यन्तरूपाणि सन्ति प्रथमाविभक्ति एव तत् शब्दस्य सः तौ ते इति प्रथमाविभक्ति अस्मत् शब्दस्य अहम् आवां वयं प्रथमाविभक्ति युष्मत् शब्दस्य त्वं युवां यूयम् इति प्रथमाविभक्ति एव अधुना भारतमहोदय तत्र कर्तरि लट्लकार परस्मैपद तत्तालिका पठति ओके okay. कर्तरि लट्लकारः परस्मैपदं वदति hmm. वदतः वदन्ति hmm. वदसि वदतः वदथ hmm. वदामि वदावः वदामः अत्र किमस्ति वदति वदतः वदन्ति इति प्रथमपुरुषः हा। सः सत्यं सः वदति तौ वदतः ते वदन्ति इति अस्ति वदसि वदतः वदतः किमस्ति मध्यमपुरुषः हा इत्युक्ते यदा अहं वदामि तत्र बालकः अस्ति बालकम् अहं वदामि त्वं वदसि मध्यमपुरुष अहं वदामि तं बालकं दृष्ट्वा अहं वदामि त्वं वदसि बालकद्वयं तदा वदामि युवां वदथ mm -hmm. बालकाः सन्ति यूयं वदथ इति अहं वदामि तेषां कृते परन्तु स्वयं बालकः तत्र अस्ति तदा कथम् उत्तमपुरुषरूपाणि स्वयं बालकः कथं वदति अहं uh -huh. वदामि बालकद्वयं कथम् आवां वदावः बालकाः बहवः बालकः वयं वदामः एतत् सर्वं एतत् सर्वं मनसि स्पष्टतया तस्य अवगमनं भवेत् हा पुनः एकवारं पश्यामः भारतमहोदय धन्यवादः धन्यवादः अधुना गीता भगिनी गीता भगिनी वक्तुं शक्नोति वा अस्ति हा गीताभगिनी भवती तत्र सः वदति तौ वदतः ते वदन्ति एवं मेच्ड् पेर् कृत्वा वदति वा मेलनं कृत्वा वदति सः वदति सः इति Oh, एक एकनिमिषं भगिनी तत्र अवगमनं कथं भवेत् सः इति एकवचने प्रथम तत्र सः सः तस्य मेलनं केन सह भवति सह वदति एवम् आगच्छति खलु तौ कुत्र गच्छति वदतः वदतः ते वद वदन्ति सत्यम् अधुना अस्मत् अस्मद् न प्रथमं युष्मत् कुर्मः मध्यमपुरुषं तत्र मेलनं कथं भवति त्वं त्वम् एकनिमिषं भगिनि वदसि हा त्वं वदसि युवाम् न्यूवां वदूयं वद उत्तमम् अधुना अस्मद् इति उत्तम उत्तमपुरुष तस्य मेलनं करोतु अहं वदामि सत्यम् आवाम् तथैव तत्त्वं वदसि भवति अहं वदामि भवति सः वदति भवति तत्र पश्यन्तु तत्र गणपति यथर्वश त्वमेव प्रत्यक्षं त्वमेव केवलं कर्ता कर्ता असि त्वम् असि वदसि इति अस्ति खलु मन्त्रोच्चारणसमये तथ एव वयं वदामः त्वं असि त्वं वदसि त्वं गच्छसि त्वं पठसि हा युवां बदाथा, युयं बदाथा। हा? इस वद युयं वदथ एवं हा अधुना स्पष्टता अस्ति गीताभगिनी स्पष्टमस्ति उत्तमं धन्यवादाः अधुना राधाभगिनी राधाभगिनी तत्र वद स्थाने वध वदस्थाने पठ इति धातु स्वीकृत्य मेलनं वा हा आं भगिनि सः सः पठति तौ पठतः ते पठन्ति त्वं पठसि युवां पठतः यूयं mm -hmm. पठत अहं पठामि आवां पठावः वयं पठामः okay. नमस्ते उत्तममस्ति धन्यवादः नीता बेनि अपि अदिति गृहे आगतवती ऐल् बिन् म्यूट् बेनि सारी क्षम्यताम् किञ्चित् कालानन्तरं से अहं योजयामि यदा यदा भवती शक्यते शक्यते यदा शक्यते तदा सूचयतु अस्तु धन्यवादः धन्यवादः अस्तु अस्तु अवश्य महोदय भवान् खाद् इति धातु स्वीकृत्य तत्र मेलनं करोति वा खाद् सः खदति तव कादतः ह म हा इति व अछे मोदय हा इति अस्त हा हा सह हादति हादति इति सह कादति ह तव कादतः ह ते कादन्ति त्वं कदासि युवा युवां खादथः खादथामि खावः वयं खदामः उत्तमम् उत्तमम् उत्तमम् अधुना वीणाभगिनी लिख् धातोः कृते वदति आ भगिनी सः लिखति तौ लिखतः ते लिखन्ति hmm. त्वं लिख युवां लिखतः यूयं लिखवः huh. यूयं यूयं किं भवति लिखव न यूयं पश्यन्तु सः तौ ते प्रथमपुरुषः आगच्छति यूयं मध्यमपुरुष खलु त्वं युवां यूयम् इति मध्यमपुरुष तत्त्वं तु त्वं लिखसि लिखसि युवां लिखतः लिख सत्यं यूयं लिखवः लिखथ लिखथ लिख लिखत प्रथमं प्रथमं किमस्ति प्रथमपुरुष द्वितीयस्थाने किमस्ति मध्यमपुरुष मध्यमपुरुष इत्युक्ते त्वं युवां यूयं हा मध्यमपुरुषस्य कर्तुपदं किं त्वं युवां युयम् उत्तम उत्तमपुरुषस्य कर्तुपदं किम् अहम् आवां वयं मम कृते उत्तम उत्तमपुरुष एवं खलु भगिनी अधुना अहं वदतु अहं विषये मेलनं कृत्वा वदतु अहं लिखामि आवां लिखावः वयं लिखामः सत्यं सम्यक् योग्यमस्ति तत्र वयं तु एतत्सर्वम् अस्माकं पुस्तके अस्ति तथैव अस्माकम् अद्यदिनस्य विषये परन्तु पूर्वे तस्य अवगमनं सम्यक् दृष्ट्या भवेत् मनसि ये अंशाः सन्ति यदा पश्यन्तु वदति वदतः वदन्ति इति प्रथमपुरुष वदति वदथ वदथ अन्तरम् आगच्छति मध्यमपुरुष अनन्तरं वदामि वदावः वदामः इति मध्यम उत्तमपुरुषे आगच्छति आङ्ग्लभाषायां कथमस्ति राधा भगिनी विना भगिनी आङ्ग्लभाषायां कथ कथमस्ति फ़स्ट् पर्सन् सेकेण्ड् पर्सन् थर्ड् पर्सन् एवम् अस्ति संस्कृतभाषायां तादृशी स्थितिः नास्ति किमर्थमिति यदा अहम् अहं प्रथमस्थानं प्रथमपुरुषस्य स्थानं भवान् एव मम कृते प्रथमपुरुषः इति सः तौटे तत् थर्ड् पर्सन् आङ्ग्लभाषायां यत् अस्ति तत् मम मनसि तत् भवान् एव प्रथमः यदा अहम् अन्येषां प्रथमस्थानं मध्यमस्थानं ददामि तदा अहं कथं भवामि अहम् उत्तमपुरुषः भवामि इति अस्ति अतः द आर्डर् इस् डिफ्रेण्ट् आङ्ग्लभाषायां फस्ट् सेकेण्ड् थर्ड् इति परन्तु संस्कृतभाषायां भवान् मम कृते प्रथमः अनन्तरं मध्यमः अहं भवन्तं सर्वे प्रथमस्थानं आव... ददामि अतः अहम् उत्तम भवामि इति अधुना स्पष्टमस्ति भगिनी सर्वेषां मनसि प्रकारेण अस्ति इति प्रथमतः तु प्रथमपुरुषः आगच्छति अनन्तरं मध्यमपुरुषः आगच्छति अनन्तरम् उत्तमपुरुषः आगच्छति अस्तु उत्तमम् अधुना किञ्चित् इतोपि अभ्यासम् अस्ति तत् कुर्मः एकवारं पठनं कुर्मः रम्य भगिनी भवती पठति वा पठतु क्रियापदानि सा सः आगच्छति सः पठति सः लिखति सह क्रीटति, सह पिबति सह कादति, सा पश्यति सः हसति सः नयति अग्नभगिनी तत्र पिब पिब पिब पिबति इति अस्ति खलु तथैव पिबति कृते पिब कृते सर्वेषां रूपाणि वदति वा अस्तु भगिनी सा सा पिबति सः पिबति तौ पिबति तौ पिबतौ ते तौ किम् आगच्छति तौ कथमागच्छति सःबति पिबतः पिबन्ति तथा कथमागच्छ अनन्तरं ते पिब पिबन्ति उत्तमम् अग्रिमे मये पिबं भवति उत्तमम् युवां पिब युवां पिबत पिबतः पिबथ पिबत पिबत यूयं पिबत पिबथ पिबतः पिबथ उत्तमम् अग्रिबतः पिबतः पिबत लास्ट् वन् अन्य पिबतः अहं पिबामि उत्तमम् आवां पिबावः वायं पिबामः उत्तमम् उत्तममस्ति तथैव एवं सर्वं मनसि तत् स्पष्टीकरणं भवेत् अधुना तत् क्रीडविषये अपि वदति वा सः क्रीडति ततः आरभ्य वदति वा क्रीडति हा अस्तु सः क्रीडति hmm? सा, सा क्रीडति सः क्रीडति तौरि क्रीडति क्रीडति क्रीडतः तौ क्रीडतः एकं शमये सः क्रीडति तौ क्रीडतः ते क्रीडन्ति त्वं क्रीड क्रीड त्वं त्वं क्रीड क्रीडसि उत्तम युवान् क्रीडति युवां क्रीडतः यूयं क्रीडत क्रीड अहं अहं क्रीडामि वयं क्रीडावः आवां क्रीडावः वयं क्रीडामः अस्तु अस्तु उत्तमं उत्तमं धन्यवादः अधुना एकवारं पुनः एकवारं राधा भगिनी राधाभगिनी आं भगिनि पश्यतु स्वीकृत्य वदति वा एवं सर्वं सः लौटे किं शब्द वदति वा भगिनी न श्रूयते पश्यति सा सा पश्यति तत्र सः सः पुण्यः सः पश्यति तौ पश्यतः hmm. ते पश्यन्ति त्वं पश्यसि युवां पश्यतः hmm. यूयं पश्यत अहं hmm. पश्यामि hmm. आवां पश्यावः वयं पश्यामः उत्तमम् उत्तमम् उत्तमं अस्तु अधुना वयम् अग्रे सरेमः तत्र अहं गच्छामि इति दत्तमस्ति अहं गच्छामि तथैव अहम् इति आरभ्य अहम् आवां वयं तत् विपरीतदृष्ट्या रिवर्स् आर्डर् कुर्मः एतत् सर्वम् अधुना भारतमहोदय भवान् वदति वा अहं गच्छामि ततः आरभ्य वदति वा आ, अहं गच्छामि आवां गच्छावः वयं गच्छामः त्वं गच्छसि उत्तमं त्वं गच्छसि युवां गच्छतः गच्छतः सः गच्छति सः तौ तौ गच्छतः ते गच्छन्ति उत्तममस्ति अधुना वयं अविना पुस्तकं प्रति गच्छामः तस्मात् प्राक् पुस्तकस्य शीर्षक तत् एकः तत्र श्लोकरूपेण एक हा अस्तु भरत् महोदय धन्यवादः भवान् तत्र श्लोकः अस्ति तत् श्लोकं पठति वा ओगस्ट् मोदय अस्तु भगिनी द्वेष्टि न गति ुभा परित्यगी भक्ति भक्ति तत्र द्वादशे अध्याये भगवद्गीतायां द्वादशे अध्याये भक्तियोगो नाम तत्र तस्मिन् अध्याये एषः श्लोकः वर्तते यो न ऋष्यति न द्वेष्टि न शोचति न काङ्क्षति प्रथमपुरुष एकवचनान्तरूपाणि हृष्यति द्वेष्टि शोचति काङ्क्षति अद्यदिनस्य पाठस्य नाम एव नशोचति, शोचति इति अस्ति योन, लट्लकार से अभ्यास यो न तर वस्ुत कि युक् यी योचती यंक्षती भगवान् वदी यहां कह क्य ऋष्यु तनंद इप्त न मोदी यियामी तर प्राप्ति तुष्यप यदि प्राप्ति होती तदाई सह, सह कहा मोदते न मोदते नवे यदा अनिष्टाप्ति भाई तुक्ट अनिष्टाप्त इच्छित प्राप्ति नवतीदा द्वेश सहन करोती। न कौती मत्सरन सह न वर्तन कौती न कौ न शोचतीोक शोक न कौ विगे वुसंगे यहां न अभवती शोकम न कौती नोचती न कांक्षति कांक्षा अभा अकमी अस्त अस्त तरह आकांक्षा कांक्षती तलाषा तनसी नाच अप्राप्तं न अभिलषति यः न ऋष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी सः कीदृचः शुभाशुभपरित्यागी शुभाशुभपरित्यागी इत्युक्ते सर्वेषां कर्माणां शुभकर्माणां तथैव अशुभकर्माणां सः त्यागं करोति त्यागं करोति इत्युक्ते तत् किमपि न करोति इति भावः नास्ति तत्र आसक्तिविरहितकर्माणि इति अस्ति हा सु इष्ट अनिष्टकर्माणां तत्र त्यागः करोति भक्तिमान्यः भक्तिमान् यः सः मे प्रियः सः मे भक्तिमान् भक्तिमान् इत्युक्ते यस्य अन्तःकरणभक्तियुक्त मानित्य मान् इति मतु प्रत्ययः यस्य अस्ति वा यस्मिन् अस्ति भक्ति भक्तिभावनया सह यः वर्तनं करोति भक्तिमान् यः सः मे प्रियः सः मे प्रियः सः कः यः न ऋष्यति यः न द्वेष्टि यः न शोचति यः न काङ्क्षति यः शुभाशुभपरित्यागी यः भक्तिमान् सः मे प्रियः इति श्लोकस्य अर्थ यह न नवेषी न शोचती न न कांती सुबाज परे प्रिय श्लोक सरल अर्थ वक्त शक्टे तथा सातया इष्टाप्त सह न मोद यहा न मोदते अतौ तनया न वर्तनम कौती न कौती दुखे शोकम न अभवती मैं प्राप्य अभिलाषा न अस्थितुक् अंतरण ये तम शब्द सेकमी सह मिये तुम्हें शुभ अशुभ शुभ अशुभ शुभम अशुभ तत्र दुःखं सुखं शुभम् अशुभं सर्वेषां द्वन्द्व यत्र अस्ति तदैव सः संयमितरीत्या वर्तनं करोति तस्य अन्तःकरणे भक्तिः अस्ति सः मम प्रियः एतादृशः भक्तिः भक्तः मम प्रियः इति भगवान् मनति व्याकरणदृष्ट्या अस्माकं अद्यदिनस्य पाठस्य विषये अस्ति न चोचति न काङ्क्षति लट्लकाररूपाणि अस्तु पाठं प्रति इदानीं गच्छामः पृष्टकमाङ्कः अस्ति षट्त्रिंशत् इति शते न शोचति न काङ्क्षति लट्लकार अधुना अगस्ट् मध्ये भवानेव आरम्भं करोतु किञ्चित् पाठस्य आरम्भं करोति वा करो पठतु करो न शोचति न काङ्क्षति ततः स्क्रीन् दृश्यते खलु दृश्यते न शोचति न काङ्क्षति ततः आरम्भं करोतु तत्र पेज् नम्बर् पृच्छति वा किं पृच्छति न दृश्यते भगिनि न दृश्यते स्क्रीन् न दृश्यते अस्तु अन्यैः दृश्यते वा इदानीं न दृश्यते भगिनी एकनिमिषं वा किम् अभवत् एकनिमिष अधुना दृश्यते अधुना दृश्य दृश्यते अधुना भवान् पठितुं शक्नोति वा आम् आं भगिनि पठतु न शोचितुं न शोचति न काङ्क्षति पाष्यतैः पाठत अवगच्छत च लाचकरः रथः गच्छति रथ रथौ गच्छतः रथाः गच्छन्ति रथा एकनिमिषं तत्र चित्रे किं दृश्यति रथः एकः रथः गच्छति रथद्वयं रथौ गच्छतः बहवः रथाः गच्छन्ति तथैव पठतु टमोदय आचार्यः उपदिशति आचार्यौ उपदिशतः आचार्याः उपदिशन्ति तत्र अगस्टमोदय उपदिशति इत्युक्ते किं भवान् जानाति वा प्रथमपुरुष एकवचनं परन्तु उपदिशति तत्र धातु आ, धातु धातुः टीचर्स् उपदेशं करोति तत्र दिश इति धातु अस्ति दिश उप इति उपसर्गः अस्ति उप इत्युक्ते समीप थात्रां, था, थात्रां उपदेशं आ, तत्र चार्य छात्र छात्री उपदेश कह वक्त आ, आ उपयोग इती उपदीश, इती भवती दा, भवती। आ, इती उपसर्ग इधु उपदेश आपसर्ग पशा आदिश आदेश यदा भवति तत् आज्ञारूपेण आगच्छति उत् दिश उद्देश इति भवति उद्देश यदा भवति चेत् तत्र हेतु वा प्रकटीकरणं वा प्राकट्यम् इति आगच्छति सम उपदिश इति वदामः चेत् समुपदेश तत् कौन्सिलिङ्ग् इति भवति एवम् निर, निर, निर, निर उपसर्ग सहित दिश दिशा आगछतिर्देश निर्देश निर्देश, पॉइंट आउट एवं औट्की हाँ सर्वे तपदती यदि अस्माक शब्द आगछति चेत मनसी तस्तुत दिशा की धा यहादय उतवा तचार्य उपदशति प्रथमपुष उपदेशं करोति प्रथमपुरुषे एकवचनान्तरूपम् आचार्यः अपि प्रथमाविभक्तिः एकवचन आचार्यो प्रथमाविभक्तिः द्विवचन आचार्याः प्रथमाविभक्तिः बहुवचनं तथैव प्रथमपुरुषे एकवचन उपदिशति प्रथमपुरुष द्विवचनम् उपदिशत् प्रथमपुरुष बहुवचनम् उपदिशन्ति एवं सर्वं तथैव मनसि उप उपसर्ग प्रिफिक्स् इति वदामः चेत् इति धातु अस्तु अन्य अन्य उपसर्गान् विषये अपि किञ्चित् चिन्तनम् ओ आदेशः इति शब्दः अस्ति तदा आ इति उपसर्ग उद्देश तदा उत् उद इति उपसर्ग इतोपि तत् अहं किम् उक्तवती निर्देश निर् इति उपसर्ग निर्देशः भवति अनन्तरं समुपदेश तत् कौन्सेलिङ्ग् इति सम उप द्वयोः योजनेन तत्र मुपदेश इति भवति एवं सर्वं तेन भवति शब्दसङ्ग्रहस्य वर्धनं भवति दृढीकरणं भवति तावत् अग्रिमे पठतु अवष्टमहोदय मातुलह पठतु मातुलह तिष्ठति मातुलौ तिष्ठतः मातुलाः तिष्ठन्ति तत्र धातु धातुविषये वदति वा तिष्ठति धातु सत्यं स्था इति धातु अस्ति तत्र तस्य तिष्ठति इति रूपम् अस्तु अग्रिमे सचिवः वर्णयति सचिवौ सचिवाः वर्णयन्ति वर्ण इत्युक्ते तत्र विस्ताररूपेण डिस्क्रिप्शन् इति सचिवः इत्युक्ते सीक्रेटन् वर्णक्रियाविस्तारगुणवचनेषु इति वर्ण इति धातु गने, गने अस्ति तत्र वर्णति इति रूपं न दृश्यते वर्णयति इति दृश्यते किमर्थं तत् वर्ण इति धातु सुरादिगणे दशमे गणे अस्ति दशमें गणे ये ये धावे कथयती भक्षती य आगछति धातु टी दे यक आगछति तक्षयती कथयती वर्णयती अग्रिमे पढ़ व्यूहू अस्ट व्यूह तत्र अस् इति धातु अस्ति स्तः सन्ति तत्र अस्ति अस्तः इति न भवति अकारस्य तत्र एकं सूत्रमस्ति तेन अकारस्य लोपः भवति अतः तत्र अस्ति सन्ति न अस्ति अस्तः अस् सन्ति अस्ति स्तः सन्ति सैनिकः ौ पश्यतः सैनिकाः पश्यन्ति अत्र पश्य धातु कः महोदय सि दृश् इति धातु मूलतः दृश् इति धातु तस्य पश् इति रूपान्तरणं भवति तु सि सत्यम् अग्रिमे वीरः अत्र मोह इति धातुः अस्ति मोहवैचित्ये इत्युक्ते तत्र धीरः मुह्यति धीरौ मुह्यतः धीराः मुह्यन्ति तत्र सम्भ्रमित अवस्था भ्रान्ति भवति मनसि सम्भ्रमः इत्युक्ते कन्फ्यूस् स्टेट् आफ् मैण्ड् इति तत्र सम्भ्रम अवस्था भवति इति सम्भ्रमीतः इति अर्थः अस्तु पर्याप्तम् अवश्यं महोदय धन्यवादः धन्यवादः अम्बिकापतिमहोदय अस्ति वा सः तु प्रविष्टवान् um, परन्तु अनन्तरं um, निर्गतवान् इति अस्ति वा तत्र दृश्यते वा अम्बिका अस्तु पठति वा स्थितप्रज्ञः तथा स्थितप्रज्ञा अभिनन्दति स्थितप्रज्ञौ अभिनन् अभिनन्दतः स्थितप्रज्ञाः अभिनन्दन्ति तत्र स्थितप्रज्ञः इत्युक्ते किञ्चित् वदति वा दुःख दुःख सन्तोष नास्ति योग्यं संयमीत मन स्थितप्रज्ञः पश्यन्तु हा वदतु मनसि स्थापितवान् सम्यक् हा इत्युक्ते यस्य प्रज्ञा स्थिता प्रज्ञा इत्युक्ते प्रज्ञा इत्युक्ते केवलं ज्ञानमिति न यस्य प्रज्ञा स्थिता न चञ्चला न मुह्यति तत्र भ्रमिता भ्रमितावस्था यस्य नास्ति मनसः भ्रमितावस्था नास्ति इति सः स्थिति में अग्रिमे विपरीतार्थम् आमाम् आमां सत्यं सत्यं विपरीतः सत्यम् अग्रिमे अग्रिमे भगिनी वदति भगिन्यौ वदतः भगिन्यः वदन्ति वद् वद्दातु वदति वदतः वदन्ति हा hmm. बद, नदीवत् भगिनी नदी नद्यौ नद्यः भगिनी भगिन्यौ भगिन्यः yeah. एवं चयति अग्रिमे <coughs> गात्रं सीदति गात्रे सीदतः गात्राणि सीदन्ति इत्युक्ते किं वक्तुमिच्छति वा गात्रं सीधन्ति गात्रम् इस् बोडि सन्देत् धनु धनु सीदति अहं न जानामि सीधति इत्युक्ते तत्र पश्यन्तु गात्रं गात्रमिति शरीरं तत्तु योग्यं तनु यथा भवान् उक्तवान् तत्तु योग्यं परन्तु गात्रम् इट् गिव्स् तम् इनर् मिलिङ्ग् हा तत्र अभि अर्जुन वदति खलु सीदन्ति मम गात्राणि इति सः वदति प्रथमे अध्याये सः वदति सीदन्ति मम गात्राणि अत्र पश्यन्तु गात्राणि सिदन्ति मुखानि शुष्यन्ति तत्र मुखं शुष्यति गात्राणि सिदन्ति सर्वेषां भीष्मपितामहः तत्र आसीत् अनन्तरम् आचार्यगुरुद्रोणः तत्र आसीत् तत्र अनन्तरं बान्धवाः सन्ति सर्वेषां तत्र मातुलाः सन्ति सर्वेषां दृष्ट्वा सः वदति अर्जुनविषादयोगः इति अस्तु खलु अहम् योद्धुं न इच्छामि मम गात्राणि स्थिदन्ति मम मुखं शुष्यति इत्युक्ते तत्र श्यद् इति धातु अस्ति स्थिद् इति रूपं तत्र भवति तस्य तत्र विसरणगत्यवसानेषु अवसानः एव न अवशिष्यते अहं किमपि कर्तुमेव न शक्नोमि मम गात्रं गात्रं कार्यरहितं गात्रं कार्यरहितं भवि इति कार्यरहितं कार्यरिम होती मूलतः धातु अस्त सद्य मूर्धन्य तस्ती आदेश यहाश तथा स्य धा तर सीदेश अग्रिम अग्रिमे पट शुष्यति मुखे शुष्यतः मुखानि शुष्यन्ति भगिनी तदेव वदति शुष्यति मुखं शुष्यति सः शुष्यन्ति शुष्यति इत्युक्ते तत्र शुष्कता शुष्कता अनुभवामि इति सः वदति मुखं शुष्यति मुखे शुष्यतः मुखानि शुष्यन्ति अत्र पश्यन्तु तत्र गात्रमिति नपुस्तकलिङ्गिपदं वनम् एव चलति वनं वने वनानि गात्रं गात्रे गात्राणि मुखं मुखे मुखानि वनं वने वनानि तथैव अग्रिमे अपि भवति इन्द्रियम् इन्द्रिये इन्द्रियाणि अत्र कः अर्थः भवितुमर्हति महोदय ते, ते, ते, ते, अवे और हरणम् अभवत् इन्द्रियाणां हरणम् अभवत् रु इति धातु रु धातु हरणम् इत्युक्ते मम इन्द्रियाणि अहं किमपि कर्तुं न शक्नोमि <coughs> इन्द्रियाणि हरन्ति किमपि कर्तुं न शक्नोमि इति गात्राणि इन्द्रियाणि एवं सर्वं स्वस्य विषाद अवस्था अर्जुनविषादयोग स्वस्य विषादर्शयितुं सः एतानि वाक्यानि योजयतु अस्तु एकम् एकं सन्देश सन्देहः भगिनी स्तुष्ट एकम् एकवारं पुनः वदति वा इत्युक्ते किम् इत्युक्ते इत्युक्ते तत्र शुष्कता इत्युक्ते ड्रै ड्रैष्यति किमपि सः वक्तुं न शक्नोमि अहं किमपि वक्तुं न शक्नोमि मम मुखम् अत्र ड्रैनेस्ट् किं किं धातु भगिनि Okay. So, एतत् सर्वम् अस्माकं लट् लकारस्य विषये प्रथमपुरुष एकवचन एकवचनान्तपदानि सन्ति अग्रिमे तत्र उत्तमपुरुष तथैव मध्यमपुरुष एवं सर्वम् अस्ति तत् अग्रिमे वर्गे कुर्मः यतो हि तत् अस्माभिः तत् पठनमपि करणीयमस्ति तत् कुर्मः कथा अहं किञ्चित् भिन्नम् अद्य चिन्तितवती हा एव अद्य वैचारिक तत्र लेखः अस्ति तत् पठामा, पठामः दृश्यते स्क्रीन् दृश्यते रक्षितः पक्षिशावकः इति कथा रक्षितः पक्षिशावकः अस्तु विना mm. भगिनी आरम्भं करोति वा प्रथम प्रथमा फस्ट् लैन् ऐ केनाट् सि स्मरता भगिनि एकदा किञ्चन कार्यं निमित्तीकृत्य स्कूटर् यानेन विपणिं गत्वा Hmm. प्रत्यागमन समये मार्गमध्ये अहम् इतस्ततः क्रीडन्तम् किञ्चित् बालकं दृष्टवान् hmm. बालकः उद्धतः इव तु न दृष्टः समीपं गतः अह तस्य हस्ते सूत्रबन्धम् पक्षिशावकम् अपश्यत् अपश्यम् सः बालकः तदा तदा पक्षिणं विमृञ्चति स्म यदा पक्षी उड्डयते तदा सूत्रम् अधः आकृष्य तम् शावकम् हस्तेन गृह्णाति स्म पुनः पुनः बालकं दृष्ट्वा व्याकुलतया आकलितः अहम् झटिति स्कूटर् यानम् मार्गपार्श्वे निधाय बालकं ग्रहीतुम् उद्युक्तः अभवम् माम् दृष्ट्वा बालकः भयात् पक्षिणम् त्यक्त्वा धावितवान् hmm. पक्षी उड्डीय समीपस्थं वृक्षम् आरुह्य अतिष्ठत् किम् अभवत् इति वदति वा स्वशब्दैः किञ्चित् hmm. ah. एकदा अहं स्कूटर् यानेन किञ्चित् आपणं गच्छित गच्छितवान् अस्मि द लेखकः लेखकः गतवान् मार्गमध्ये सः एकं बालकम। क्रीडयित्वा अदृष्ट दृष्टवान् बालकः उद्धतः इव तु न दृष्टः बालकः हि लुक् नार्मल् बालकः उद्ध सर्वे सामान्य सामान्य सामान्य शामान्या आसीत् हा तस्य हस्ते सू शावकम् इत्युक्ते किं भगिनि लेग्स् वा इति पक्षिणः नाम एव पक्षिशावकं हा ओके बालकस्य हस्ते एकं पक्षिशावकम् अपश्यत् सः अपश्यत् सः सू सूत्रेण बन्धितः आसीत् यदा uh, य, यदा सः पक्षिः um, उद्धतं uh, उद्धतमस्ति सः uh, uh, सूत्रं um, विमृच्छति स्म वा hmm, hmm, hmm, hmm. सूत्र सूत्रम् अधः आकृष्य तं शावकं हस्तेन गृह्णाति mm. स्म यदा पक्षिः उड्डयते तदा सः सूत्रम् आह् आकृष्य शावकं गृह्णाति हस्तेन गृह्णाति तत्र तक पीड़ा सह बाक सह बक्षी हाँ किं कौती सह यदा पक्षी तदा एकवारं तस्य तदाएक तर नीचे सूत्रम तत्र हस्तेन तस्तेन त्रहण कौती पुनः एकवारं उड्डनं भवति पुनः तस्य गृ ग्रहणम् एवं सर्वं सः विकृत बुद्धि क्रीडां करोति किं तत्र क्रीडा निर्मला क्रीडा इति न पक्षिणां सः पीडयति अग्रिमे किम् अभवत् लेखकः तस्य स्कूटर् यानं आ, आ, एकं मार्गपार्श्वे निधाय बालकं ग्रहीतुम् उद्दुकः अभवत् तत्र <laughs> बालकस्य या क्रीडा प्रचलिता आसीत् तस्य अवरोधनं करणीयम् इति विचारेण सः पुनः एकवारं मार्गे पार्श्वे निधाय तद्बालकं समीपं सः गतवान् लेखकः गतवान् तदा किम् बालकः बालकः सः दृष्ट्वा पक्षिणं त्यक्त्वा दृष्ट्वा तं दृष्ट्वा तं तं दृष्ट्वा बालकः भयात् पक्षिणं त्यक्त्वा धावितवान् तदा बालकः तत्र अवगत अवगतवान् तत्र एषः मनुष्यः मम क्रीडां रोदनस्य कृते अत्र आग आगच्छति आगमिष्यति अतः सः भयेण भयात् भयभावनया पक्षिणं त्यक्त्वा तत्र ततः निर्गतः धावितवान् तदा पक्षी किं कृतवान् पक्षी आ, पक्षी हो... उड्डीय समीपस्थं वृक्षम् आरुह्यत् आरुह्यत् आरुह्य अतिष्ठत् तत्र समीपस्थं यत् वृक्षमस्ति तत्र पक्षे अतिष्ठत् इति तत्र गतवान् अस्तु धन्यवादः भगिनि धन्य अस्तु भगिनि अधुना किं भवति पठामः भारतमहोदय पठति वा मया समीपस्थवृक्षात् आं भगिनी मया समीपस्थवृक्षात् लम्बमानं सूत्रं द्रष्टम् अहं विना रवं मन्दं मन्दं वृक्षस्य समीपं गत्वा लम्बमानं श्वेतवर्णसूत्रं तया गृहीत्वा पक्षिणम् अधः आकृष्य हस्तेन गृहीत्वा किञ्चित् कालांतरम मया पक्षी सूत्र परीक्षण परीक्ष्य उजल तदी तदीय पाद प्रक्षा मैया व्रणी रणित प्रदेश हरिद्वारूर्णन लिप्ता तथा व्रणिश् व्रणीता सह पक्षी शक्तिनता मम हस्ते हत अचेत, अचेतन स्थितो, अति तिष्ठत् उच्छ्वासनीयः श्वासाभ्यां मया अवगतं यत् पक्षी सजीवः अस्ति इति अहं सन्तुष्टः अभवम् अत्र पश्यन्तु तत्र पक्षी अस्ति तत्र शावकः इत्युक्ते पक्षीरूपमेव परन्तु कथं वदामि तत् कब् इति वदामः खलु स्मालर् वन् देट् इस् शावकः कभ वन् यङ्गुना मया समीपस्थवृक्षात् लम्बमानं सूत्रं दृष्टम् इत्युक्ते इत्युक्ते किं भारतमहोदय वक्तुम् इच्छति समीपे वृक्षात् लम्बमानं लम्बमानं न जानामि हेङ्गिङ्ग् है सूत्रम् समीपस्थवृक्षात् तत्र लम्बमानं सूत्रं दृष्टं हा पश्यन्तु तत्र सूत्रेण सः किं कृतवान् लेखकः किं कृतवान् अहं बीना रवम् रवम् इत्युक्ते नोयिस् ध्वनि रवम् इत्युक्ते अहं विना रवं मन्दं मन्दं वृक्षस्य समीपं गत्वा लम्बमानं श्वेतवर्णसूत्रं जागरूकतया गृहीत्वा पक्षिणम् अधः आकृष्य हस्तेन गृहीत्वा सक्षेमम् गृहं नीतवान् सः किम् कृतवान् सूत्रेण सूत्रस्य साहाय्येन सः सह, तत्र पक्षी शावकम् कुत्र गतवान् पक्षी उड्डीय वृक्षम् तत्र गतवान् आसीत् अतः एषः लेखकः सूत्रेण एव सूत्रेण सहायसूत्रेण एव तत्र लम्बमानं सूत्रमिति दत्तमस्ति तेन चावकं अधः आकृष्य सक्षेमं गृहं नीतवान् सक्क्षेमं क्षेमसहित सावधानतया तस्य कापि हानि न भवेत् इति विचिन्त्य चावक पीड़ा सहित आसा तक नीतवाधना मुक्त अनंतरम अनम कि अबी महोदय पक्षीण पक्षिण परीक्ष्य उष्णे तदीय पाद प्रक्षा मैं वणित प्रदेश पक्षिण पक्षिण पारिक्ष परीक्ष परीक्षम् इत्युक्ते परीक्ष इति परीक्षाम् इति तस्य अवलोकनम् इति उष्णजलेन तदीयौ पादौ प्रक्षाल्य तस्य पादौ प्रक्षाल्य प्रक्षाल्य इत्युक्ते वाशिङ्ग् इति अस्ति खलु क्लीनिङ्ग् वाशिङ्ग् इति व्रणितप्रदेशः तत्र व्रणाः सन्ति पीडा सद् पीडा आसीत् तत्र व्रणितप्रदेशः हरिद्राचूर्णेन हरिद्रा इत्युक्ते टर्मरिक् चूर्ण इत्युक्ते पौडर् हरिद्राचूर्णेन लिप्तः इति एण्टिसेप्टिक् इति अस्ति खलु हरिद्राचूर्णम् तस्य उपयोगं कृत्वा सः तत्र व्रणितप्रदेशे प्रदेशे तत्र हरिद्राचूर्णम् सः उपयोजितवान् तथा व्रणी सह पक्षी शक्तिनता मम हचेतन स्थित अति भवतमोदी शक्ति हीन, मम हिषित हाँ त अचेतनता हाँ तर गात्र गात्री विकल अवस्था आसन अतः सह शरी चेतना न आस शरीर ऊर्जा न आसरे शक्तिनता आसी तस्खक हा तह अतिडयन करणीयं तु मनसि तु आसीत् परन्तु सः न कृतवान् किमर्थं शक्तिहीनता कारणात् इति अनन्तरम् उच्छ्वासानिः श्वासाभ्यां हा वद् वदतु किमस्ति महोदय उच्छ्वासनिः श्वासाभ्यां mm -hmm. मया mm -hmm. अवगतं यत् पक्षी सजीवः सजीवः अस्ति इति mm -hmm. इत्युक्ते श्वास उच्छ्वास इत्युक्ते इति खलु इमेलि एक्जलि तेन एव मया अवगतं यत् पक्षी सजीवः इुक् तक विकल अवस्था एककल अवस्था तस्तना न आसता आसा न आसीव अस्ती कथम ज्ञाते उच्छ्वास श्वास नोचे सेतन रही इती भाव अनन्तरम् अहं सन्तुष्टः अभवत् लेखकः किमर्थम् सन्तुष्टता किं कारणार्थम् अहं सन्तुष्टः सजीवः अस्ति इतोपि प्राणत्यागं न अभवत् इति तस्य मनसि लेखकस्य मनसि आगच्छति अतः सः सन्तुष्टः अभवत् एतावत्पर्यन्तं कथा अस्तु धन्यवादः महोदय धन्यवादः रमणी भगिनी अग्रिमे पठति वा अस्तु भगिनि hmm. सत्वरं शान्तिनिवारणं hmm. भवे भवेत् इति मत्वा hmm. हो, हो, होमियोपति अस्य hmm. आर्नि आर्निकामान् आर्निकामाण्ड् टु हण्ड्रेड् इत्येतस्य अत्र होमियोपथि मध्ये तत् अर्निका टु हण्ड्रेड् इति अस्ति खलु तस्य विषये अत्र दत्तमस्ति औषधस्य चतुष्पञ्चा पञ्चाः मधुरगोलिकाः चूर्णि चूर्णिको चूर्णिकृत्य चूर्णीकृत्य पक्षिणः मुखम् उद्घाट्य मया अन्तः स्थापिताः अग्रिमे अपि पठतु अनन्तरं वदतु अहो अहो आश्चर्यं तत् औषधं खादितं तेन पश्चात् पाकशालाया पाकशालातः hmm. रन्ध्रु रन्ध्रयुतकण्डोलम् रन्ध्रयुतकण्डोलम् आनीय तस्मिन् धूलं प्रसार्य मया सह स्थायितः hmm. किं किम् अभवत् इत्युक्ते इमिडियेट्लि इमीडियेट्लि इमीडियट्लि शान्तिनिवारणं भवेत् शान्ति तत्र परिहारं कृतवान् भवेत् इति मत्वा होमियोपति भौगोलिका शूर्णी चूर्णं कर् कृत्वा hmm. पक्षीणां मुखे hmm. लेखकः स्थापितः लेखकः तत्र चतुष्पञ्चाः इति दत्तमस्ति इत्युक्ते किं भगिनि चतुष्पञ्चाः चतुष्पञ्चाः फिफ्टि फोर् चतुष् फिफ्टि अत्र चतुर् इत्युक्ते चतुष्पञ्चाः इत्युक्ते वा नाम फोर् फैव् इति भवति न तत्र न एकवारं तत्र अहं दृष्ट्वा वदामि अत्र मम अपि सन्देहः चतुष्पञ्चाः चतुष्पञ्चाः इत्युक्ते फोर् फैव् टेब्लेट्स्व गिवन् इति अस्ति वा तदेव चिन्तितवती फोर् फैव् टेब्लेट्स्वे गिवन् तत् फिफ़्टि फ़ोर् टेब्लेट्स् इति न भवेत् इति टेब्लेट्स् मधुरगोलिकाः चूर्णीकृत्य पक्षिणः शावकः अस्ति खलु तत् पक्षिणः मुखं तु न न परन्तु तत्र दृष्टुं वदामि किं छे, चेत् अग्रिमे वर्गे वदामि चूर्णीकृत्य चूर्णम् इति पौडर् फार्म् पक्षिणः मुखम् उद्घाट्य उद्घाट्य मया अन्तः स्थापितः अग्रिमे अहो बहु आश्चर्यं तत् औषधं मन्त्रं मन् मन्त्रं मन्त, स्लोलि खाद्यं mm. पश्चात् पाकशाला mm. पाकशालातः रन्ध्रयुधकण्डोलनं mm. युधकण्डोलं mm. रन्ध्र आमामां स्टीव् इति अस्ति खलु स्टीव् पाकशाया योजयामः तत् स्टीव् इति तत् रन्ध्रयुतकण्डुलम् आनीय अग्रिग्य अस्मि तस्मै स्थूलं प्रचार्य मया सह शायितः इत्युक्ते किं भगिनि तत्र काटन् साफ़्ट् काटन् तुलं प्रसार्य मया सह शायितः इत्युक्ते मया इत्युक्ते अत्र कर्मणि प्रयोगः अस्ति मया सह शायितः लैडं लैण्डम् आम् आम् तत्र अग्रिमे पश्यामः अधुना तत् अम्बिकापतिमहोदय पठति वा एकहोरानन्तरं ततः आरभ्य एकहोरानन्तरं निद्रातः उद्धितः पक्षी उड्डयनं कर्तुं पुनः पुनः पक्षयोः चा चालनम् अकरोत् <laughs> अहं झटिति खण्डो कण्डूलतः तं बहिः mm. नीत्वा गृहस्य पृष्ठभागे वृक्षस्य समीपे पिहितहस्तम् उद्दाडितवान् सकृत् पक्षी किलखिलारणेन किलारेवल किल किल किलारणेव सोरि ओ सोरि इट्स् गुड् स्मोलि किलखिलारणेन धन्यवादं प्रकटय स्वनीडं प्रति गतवान् ततः जातं आनन्दं किमिति अहं वर्णयेयत् वर्णयेयत् वर्णयेयां स एकहोरानन्तरं वन् वन् वन् वन फ्यू अवर्स् होरा होरा इस् पीरियड् टैम् पीरियड् होरा निद्रातः स्लीपिङ्ग् लैक् उद्दितः पक्षी उड्डनं कर्तुं पुनः पुनः पक्षयोः चालनम् अकरोत् स्लोलि द्विवचनान्तररूप इत्युक्ते पक्षयोः षष्टिद्विवचनं इत्य। पक्षयोः चालनम् अकरोत् उद्दयनं कर्तुं सह उद्युक्तः पक्षयोः चालनं सह अकरोत् तदा लेखकः किं कृतवान् अहं झटिति कण्डूलतः तं बहिः नीत्वालीस् फ्रम् द सी इमीडियेट्लि गृहस्य पिष्ट बाणे भागे पिष्टभागे गृहस्य फ्रम् द बेक् आफ़् द हौस् वृक्षस्य समीपे इन् द नियर् द हौस् पिहितः स्तम् अहं न जानामि पिहितहस्तम् ओपन् ओपन् हेण्ड् उद्घाटितवान् उद्घाटितम् पिहितहस्तम् ओपन् हेण्ड् टु मेक् हिम् फ्री इति हस्तम् उद्घाटितवान् सकृत् पक्षी किल धन्वादं प्रकट्यवेण पक्षिणः ध्वनि तत् ध्वनेः किलकिल इति नामना ज्ञायते तत् किल्किल रवेण धन्यवादं प्रकट्य इति कल्पना लेखकस्य कल्पना अस्ति किल्किलारवेण सह धन्यवादं प्रकटयति प्रकट्य स्वनीडं प्रति निडम् इत्युक्ते नेक्स्ट् स्वस्य सह गतवान् ततः जातम् आनन्दं किमिति अहं वर्णयामि किं वर्णयेयम् किं वर्णयेयम् वर्णयितुं न शक्नोमि अपार मम मनसि आनन्दः एव इति कथा रक्षितः पक्ष पक्षिशावकः अत्र पक्षिशावकः रक्षितः केन रक्षितः लेखकेन लेखकेन पक्षिशावकः रक्षितः पक्षिशावकस्य रक्षणं तेन इति भाव अस्तु स्पष्टमस्ति वा सर्वेषां कथा अस्तु अधुना वदन्तु कथायाः विषये स्वशब्दैः सर्वे आरम्भं करोतु वीणा भगिनी राधाभगिनी जयन्ती भगिनी वक्तुं शक्नोति चेत् वदतु अगस् महोदयः वदतु एकमेकं एकम वदन्तु सर्वै वीणा भगिनी वदति वा भगिनी श्रूयत् हा वदतु Uh, uh it is min aushadham it is very important you never know when you need it but anyway so it's always good to keep the medicine with you marpu puna bhava arnica 200 ayo puna eva satyam satya eva avtavati bhavati satye meva उत्तम होमियोपथी औषधानां कृते तत्र केचन गुणाः तस्मिन् वर्तन्ते ते गुणाः अतीवमहत्त्वपूर्णाः एव तत् बुन् डीलिङ्ग् इति अर्निका टु हण्ड्रेड् एवं करोति लघु एव अस्ति भगिनि तत्र सुलभतया तत्र ग्रहणं भवति सुलभतया पक्षिणः तत् पश्यन्तु शावकः अस्ति तस्य सुलभतया ग्रहणं केन औषधेन भवितुमर्हति इति लेखक चिन्तितवान् तथैव सः उपयोजितवान् इति अस्ति तत्र स्थूलं योजना वा एवं सर्वम तत्र पाकशालातः सः कण्डोलम् आनीतवान् एतत् सर्वं किं दृश्यति किं दर्शयति तत्र तस्य मनसि अन्येषां कृते उपकारभावना अस्ति पक्षिणः कृते उपकारभावनया सह मर्तनं करोति इति दृश्यते खलु सन्तसज्जनानां कृते साहित्येषु अपि वयं दृष्टा पश्यामः तत्र भगवद्गीतायामपि भूतदयाः महत्त्वम् अधिकमस्ति तत् एतत् सर्वं कथामाध्यमेन एतत् सर्वं दृश्यते यत् शक्यते तत् वयं कर्तुं शक्नुमः इति कथायाः बोधः अस्तु अस्तु भगिनि अधुना वदतु रामणीभगिनी भवती किमपि वक्तुम् इच्छति वा उत्तमम् अन्येषां यदा साहाय्यं कुर्मः तदा स्वस्य मनसि आनन्दं जनयति अतीवमहत्त्वपूर्णं न ते अन्येषां कृते परन्तु अस्माकं मनसि आनन्द पश्यतु तत्र मधुरवचनानि यदा वयं वदामः मनसि एव आनन्दभावना अस्ति खलु सन्तोषभावना अस्ति अन्येषां कृते य यदा अन्यैः तत्र वयं किमपि कुर्मः तदा जनाः वदन्ति धन्यवादाः धन्यवादः मनसि आनन्दमागच्छति स्वस्य कृते उत्तमं भारतमहोदय तथैव स्वस्य आनन्दस्य कृते एव एवं सर्वं करणीयं परोपकारभावनया उत्तमं loyal to you and uh, they are even more loyal more than people also ah satyam satyam satyam satyam atah tatah utsah shavakah sa dhanyawada aiti uptavan karu aa bajne ha kilkila ha satyam satyam satya tadaya yada oh parantu manushya manushya se apekshaya prani matrai प्राणिजगतः तत्र प्रामाणिकतया वर्तनम् अधिकं दृश्यते इति सत्यम् mm, mm, इतोपि रमणीभगिनी वदति खलु आं भगिनि बैनी, बैनी वा, वा गोलीका बहु बहु लघु अस्ति किल बगिनी होमियोपथि गोलिका गोलीका होमियोपति होमियोपति गोलिका ओ बहु ओ वाँ लघु लघु अस्ति अतः फार्टि फैव् शक्यते किल फार्टि फिफ्टि फ़ोर् भवितुम् अर्हति इति वदति भवितुमर्हति आयामः तत् बहु लघु लघु अस्ति सम्यक् मार्गेण एव तेषां ग्रहणं भवति तत् फिफ्टि फ़ोर् इति नम्बर् तादृशम् एपि भवितुम् अर्हति इति तत्र मातापूर्ण सत्यं सत्यं सत्यं अस्तु अधुना राधापकारार्थम् इदं शरीरं परोपकारार्थम् इदं शरीरं सत्यं राधा भगिनी आं भगिनि अहम् अन्य पीडितजनानां साहाय्यं करणीयम् उपकारं करणीयं स्वस्य आनन्दकृते अन्यजनानां पक्षीणां पीडां न करणीयम् सत्यं सत्यं स्वस्य आनने यथा सः बालकः कृतवान् आसीत् तत् न करणीयम् आनन्दस्य कृते अन्येषां पीडां ददामि इति भाव भावनया वर्तनं वा भवेत् इति सत्यं सत्यं योग्यम् अम्बिकापतिमहोदय अगोष्टमहोदय वदति वा अम्बिकापतिमहोदय अगोष्टमहोदय अम्बिकापतिमहोदय वदतु ना? शान्तिमन्त्रं um, uh, न no, no. uh, किञ्चित् uh, निमिषद्वयमस्ति uh, तत् किमपि कथायाः विषये वदति वा अनन्तरं पर, पर, परोपकारार्थं शरीरमस्ति uh, वृक्षस्य mm? uh, mm -hmm. uh, uh, um, समानं वृक्षः फलं mm -hmm. uh, ददाति uh, uh, um, uh, परोपकाराय Hmm. Uh, uh, आवां सम्यक् परोपकाराय कर्तुं सन्तोषम् अनुभवाम् अनुभवामः वयं hmm. uh, परोपकारं कृत्वा सन्तोषम् एव अनुभवामः सत्यम् उत्तमम् अगस्ट् मोदये भवान् इच्छति वा वदति वा, वा? भगिनि is confused what uh, gives happiness to to him he thinks uh, maybe that the imprisonment imprisonment of the bird will mm -hmm. give happiness so, so the the author shows mm -hmm. that uh, better happiness is obtained in give freedom to mm -hmm. wild animals and atna dikha sukham mm muktak asti hmm seven ten सत्यं सत्यम् उत्तमम् उत्तमं महोदय उत्तमं स्वातन्त्रता स्वातन्त्र स्वातन्त्र्यं सर्वेषां कृते तत् स्वातन्त्र्यम् अतीवप्रियमस्ति सत्यम् उत्तमं सर्वेषां विचाराः नूतनाः विचाराः बहु सम्यक्रीत्या सर्वे उक्तवन्तः उत्तमं धन्यवादाः सर्वेषां धन्यवादाः नैके धन्यवादाः अधुना अम्बिकापतिमहोदय शान्तिमन्त्रेण पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमाधाय पूर्णमेव अवशिष्यते ओम् शान्तिशान्ति शान्तिः हरिः ॐ तत्सदे श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादाः धन्यवादाः धन्यवादः धन्यवादाः पुनर्मिलामः पुनर्मिलामः धन्यवादः